हरि ओं श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे अष्ट सप्तति तम सर्गः रावणस्य आज्ञया मकराक्षस्य युद्धाय प्रस्थानं निकुम्भं नियतं श्रुत्वा कुम्भं च विनिपातितं रावणः परमर्षिः प्रज ज्वाला यथा नैरुतः क्रोधयोगाभ्याम् द्वाभ्याम् तु परिमूर्च्छितः क्षरपुत्रं विचाराक्षम् मकराक्षम् अचोदयत् गच्छ पुत्र मया ज्ञप्तौ बलेनाभि समन्वितः राघवम् लक्ष्मणं चैव जहि तौ स रावणस्य वच श्रुत्वा शूरमाणि खरात्मजः ढम्ब्रवीत् दृष्टो मकराक्षो निशाचरम् सोऽभिवाद्यः दशग्रीवम् कृत्वा चाप्यपदक्षिणम् निर्जगाम गृहा शुभ्रात् रावणस्याज्ञया बली समीपस्थम्बराध्यक्षम् खरपुत्रो ब्रवीद्वचः रसमानीयतां तूर्णम् सैन्यं त्वानीयतां वरात् तस्य तद्वचनं तस श्रुत्वा बलाध्यक्षो निशाचरः चन्दनं च बलं चैव समीपं प्रत्यपादयत् प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः सूत्रं सञ्चोदयामास शीघ्रं वै रथमावह अथ तान् राक्षसान् सर्वान् यूयं सर्वे प्रयुध्यध्वम् पुरस्तान् मम राक्षसाः अहम् राक्षसराजेन रावणेन महात्मन अज्ञप्तः समरेहन्तुम् तौ भो राम लक्ष्मणौ अद्य रामम् वधिष्यामि लक्ष्मणं च निशाचरः शाखामृगं च सुग्रीवम् वानराश्च अद्य शूलनिपातैश्च वानराणाम् महाचमम् प्रदहिष्यामि सम्प्राप्ताम् शुष्किन्धनम् युवनलः मकाक्षस्य तच्छ्रुत्वा वचनं ते निशाचरः सर्वे नानायुधोपेता बलवन्त समाहितः ते कामरूपेण क्रूराय दष्ट्रिणः पिङ्गलेक्षणः मातङ्गा इव नर्दन्तो ध्वस्तकेशः भयावहा परिवार्य महाकाया महाकायम् खरात्मजम् अभिजग्मो ततो चालयन्तो वसुन्धराम् शङ्ख भेरिसहस्राणाम् हतानां समन्तत खेलितास्फोटितानाम् च तत्र शब्दो महान् अभूत् भ्रष्टोथ करात प्रचोर सार्थे सदा पहसा दज तुराक्षसुक्ता हया विक्रमर्जिता चरण आकुले गीना श्रमुखा यु प्रवाते पवन तस्शु खर दारुण निर्याणि तस्य रौद्रस्य मकराक्षस्य दुर्म तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमः अचिन्त्य निर्गता सर्वे यत्र तौ रामलक्ष्मणो घनगजमहिषाङ्गतुल्यवर्ण समर्मुखेश्वरसि भिन्ना अहमहमिति रविद्ध कौशलास्ते रजनीचरा परि बभ्रममुर्हुस्ते इत्याख्ये श्रीमन् रामायणे वाल्मीकी सप्तती युद्धकाण्डे अष्टसप्ततितमः सर्गः श्रीसीतारामचन्द्रार्वणमस्तु